ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं फोर्टिफोर् हयग्रीव उवाच प्रविश्यतु जपस्थानमानीय निजमासनम् अभ्युक्ष्य विधिवन्मन्त्रैर्गुरूक्तक्रमयोगतः स्वात्मानं देवतामूर्तिं ध्यायंस्तत्राविशेषतः प्राङ्मुखो दृढमाबध्य पद्मासनमनन्यधीः त्रिकण्टामनुबध्रीयाद्गुर्वादीनभिवन्द्य च द्विरुक्तबालबीजानि मध्याद्यङ्गुलिशुक्रमाद् तलयोरपि विन्यस्य करशुद्धि पुरःसरम् अग्निप्राकारपर्यन्तं कुर्यात्स्वास्त्रेण मन्त्रविद् प्रतिलोमेन पादाद्यमनुलोमेन कादिकं व्यापकन्याः समारोप्य व्यापयन्वाग्भवादिभिः व्यक्ताय कारमसूक्ष्मस्थूलशरीराणि कल्पयेद् ृद भ्रुवोम बाला बीजान्य बीजान्यथ न्यसें मतृका मूलपुटितासेंशुक्रद न्यसे बाीजानी त्यवृत्थ विसेत मध्याशाखासु तलोर न्य नाभ्यादा नाभ्यादावध विन्यस्य न्यसे दध पदद्वये जानूरुस्फिग्गुह्यमूलनाभिहृन्मूर्धसुक्रमादनवासनानि ब्रह्माणं विष्णुं रुद्रं तथेश्वरं सदाशिवं च पूषाणं तूलिकाञ्च प्रकाशकम् विद्यासनं च विन्यस्य हृदये दर्शयेत्ततः पद्मत्रिखण्डयौन्याख्यां मुद्रा मोष्टपुटेन च वायुमापूर्य हुं हुं हुं, हुं त्विति प्रावीध्य कुण्डलीं मन्द्रचक्रियासमुन्नीय द्वादशान्ते शिवैकथाम् भावयित्वा पुनस्तं च स्वस्थाने विनिवेश्य च वाग्भवादीनि बीजानि मूलहृद्बाहुशून्यषेद समस्तमूर्ध्नि दोर्मूलमध्याग्रेषु यथाक्रमं हस्तौ विन्यस्य चाङ्गेषु ह्यङ्गुष्ठादितलावधि हृदयादौ च विन्यस्य कुङ्कुमं न्यासमाचरेत् शुद्धा तृतीयबीजेन पुटितां माधृतां पुनः आद्यबीजद्वयं न्यस्य ह्यन्द्यबीजं न्यसेदिति वर्गाष्टकं न्यसेन्मूले नाभौ हृदयकण्ठयोः प्रागाधायैषु शशसान्मूलहृन्मूर्धशून्यसेद् कक्षकट्यं स वा मां स कडिहृत्सु च विन्यसेद् प्रभुताधषडङ्गानि दादिवर्गैस्तु विन्यसेद् ऋषिस्तु शब्दब्रह्मस्याच्छन्दो भूतलिभिर्मता श्रीमूलप्रकृतिस्त्वस्य देवताकथितमनोः अक्षसृग् पुस्तके चोर्ध्वे पुष्पसायक पुष्पसायककार्मुके पराभिधिकराब्जैश्च धारयन्तीमनुपमाम् रक्षणाक्षमयी मानां वहन्ती कण्ठदेशतः हारकेयूरकटकछन्नवीरविभूषणां दिव्याङ्गरागसम्भिन्नमणिकुण्डलमण्डितां लिपि कल्पद्रुमस्याधो रूपि पङ्कजवासिनीं साक्षाल्लिपिमयीं ध्यायेद्भैरवीं भक्तवत्सलाम् अनेककोटिदूदीभिः समन्तात्समलङ्कृतां एवं ध्यात्वा न्यसेद्भूयो भूतलेप्यक्षरान्क्रमाद् मूलाध्याज्ञावसानेषु वर्गाष्टकमधोऽन्यसेद शशसान्मूर्ध्नि संन्यस्य स्वरानेष्वेव विन्यसेत् आदिरूर्ध्वादि पञ्चास्येष्वग्रे मूले च मध्यमे अङ्गुलीमूलमणिबन्धयोर्धेष्णोश्च पादयोहो जठरे पार्श्वयोर्दक्ष वामयोर्नाभि पृष्टयोः शशसन्मूलहृन्मूर्धस्वेतान्वालादिकान्यसेद ह्रस्वाः पञ्चाधसन्ध्यार्णाश्चत्वारो हयरावलौ अकौ खगेर्नगश्चादौ क्रमोयं शिष्टवर्गके शशस इति विख्यादा द्विचत्वारिंशदक्षराः आद्यः पञ्चाक्षरो वर्गो द्वितीयश्चतुरक्षरः पञ्चाक्षरीदुषड्वर्गीत्रिवर्णो नवमो मदः ब्रह्माविष्णुश्च रुद्रश्च धनेश्येन्द्रयमाक्रमाद वरुणश्चैव सोमश्च शक्तित्रयमिमेनव वर्णानामीश्वराप्रोक्ताक्रमो भूदलिभेरयम् एवं सृष्टौ पाढो विपरीदसंहृदावमुन्येव स्थानानि योजनीयौ विसर्गबिन्दु च वर्णान्तौ ध्यानपूर्वं ततः प्राज्ञो रत्यादिन्या समाचरेद जपाकुसुमसङ्काशाकुङ्कुमारुणविग्रहाः कामवामाधिरूढाङ्गाध्येयाः शरदनुर्धराः रदिप्रीति युधः कामः कामिन्या कान्तयिष्यते कान्तिमान् मोहिनीयुक्त कामाङ्घकलहप्रियाम् अन्वेदि कामचारैस्तु विलासिन्यासमन्वितः कामः कल्पलदायुक्त कामुखश्यामवर्णया शुचिस्मितान्वितः कामो बन्धको विस्मृतायुतः रमणो विस्मिताख्या च रमोऽयं लेलिहानया रमण्या रदिनाथोऽपि दिग्वस्त्राढ्यो रदिप्रियः वामया कुब्जया युक्तो रदिनाथो धरायुतः रमाकान्दो रमो निशाचरः कल्याणो मोहिनीनाथो नन्दकश्चोत्तमान्वितः नन्दी सुरोत्तमाढ्यो नन्दनो नन्दयिता पुनः सुलावण्यान्विदः बालनिधीश्वरः कलहप्रियया युक्तस्तथा रतिसखः पुनः एकाक्ष्या पुष्पधन्वापि सुमुकेशो महाधनुः नीली जडिल्यो भ्रमण क्रमशः पालिनीपतिः भ्रममाणशिवान्तो भ्रमो भ्रान्तश्च मुग्धया भ्रामकोरमया प्राप्तो भ्रामितो भृङ्गीष्यते भ्रान्ताचारो लोचनया दीर्घजिह्विकया पुनः भ्रमावहं समन्वेदि मोहनस्तु रदिप्रियाम् मोहकस्तु पलाशाक्ष्या गृहिण्यां मोह इष्यते विकडेशो मोहधरो वर्धनोयं धरायुतः नूपमस्तु मन्मधो मलयान्वितः मातको ह्लादिनीयुक्त समिच्छन्विश्वतोमुखी नायको भृङ्गपूर्वस्तु गायको नन्दिनीयुतः गणको नामया ज्ञेयकाल्यानर्तक इष्यदे क्ष्वेल्लकः कालकर्ण्यढ्यकन्दर्पो मत्त इष्यते नर्तकश्यामलाकान्दो विलासी चषयान्वितः उन्मत्तामुपसंगम्य मोदते कामवर्धनः ध्यानपूर्वं तदश्रीकण्डादिविन्यासमाचरेद सिन्दूरकाञ्चनसमो भयभागमर्धनारीश्वरं गिरिसुधाकरभूपचिह्नं पाश्चद्वयाक्षवलयेष्टदहस्तमेव स्मृत्वा न्यस्य लिपिपदेषु समीहितार्थं श्रीकण्ठानन्द सूक्ष्म त्रिमूर्तिरमरे उर्वीशोभूतिधीषस्ताणुर चंडीशो भौतिक सद्यो जातचाग्रहेशर अक्रूरश्च महास न्युरे दरमूर्त तद क्रोधीष चण्डीशौ पञ्चान्तकशिवोत्तमौ तथैकरुद्रकूर्मैकनेत्रा स चतुरातनाः अजेष्य शर्वसोमेशौ हरो लागलिदारुकौ अर्धनारीश्वरश्चोमाकान्तश्चापाढ्यदण्डिनौ अत्रिर्मिनश्च मेषश्च लोहितश्च शिखी तथा खड्गदण्डद्विदण्डौ च सुमहा भुजङ्गेशक् पिनादी च खड्गेशश्च बगस्तथा स्वेदो ह्यभ्रश्च लकुलीशिव संवर्तकस्तथा पूर्णोदरी च विरजा तृतीया शाल्मतथा लोलाक्षी वर्तुलाक्षी च दीर्घोणा तथैव च सुदीर्घमुखि गोमुख्यौ नवमी दीर्घजिह्विका कुञ्चरी चौर्ध्वकेशाचद्विमुखी विकृतनना सत्य लीला कला विद्या महाकाली सर्व सिद्धि गौरी सत्यलीलाकलाद्याख्या स्युस्वरशक्त तथा सरस्वत गौरीद्या मंत्रत्मशक्का लंबोदरी भूतमता नागरी तथा केजरी मंजरी चैव, चूपिणी वीरिणी तथा कोटरा पूतना भद्रा काली शंखिनी गर्जिनी काल रात्रिकूर्दिवर्दी तथा वज्रा जयाच सुमुकेश्वरी, जया माधवी चैव, वारुणी वायवी तथा रक्षाव रक्षावधारिणी चान्या तथा च चा सहजाह्वया लक्ष्मीश्च व्यापिनिमाये सङ्ख्यादा वर्णचक्रयः द्विरुक्तवालाया वर्णैरङ्गं कृत्वाध केवलैः षोठान्यासं प्रकुर्वीद देवतात्मत्वसिद्धये विघ्नेशादींस्तु तत्रादौ विन्यस्ये ध्यानपूर्वकं तरुणारुण सङ्काशान् गजवक्त्रां त्रिलोचनान् पाशाङ्कुशवराभीधिहस्ताञ्चक्रिसमन्वितान् विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ विघ्नकृद्विघ्नकन्दा च विघ्नराड्गणनायकः एकदन्धोद्विदन्तश्च गजवक्त्रो निरञ्जनः कपर्दवान् दीर्घमुखशङ्घुकर्णो वृषध्वजः गणनाथो गजेन्द्रास्य शूर्पकर्णस्त्रिलोचनः लंबोदरो महानादश्च दुर्मूर्तिः सदाशिवः आमोदो दुर्मदश्चैव सुमुखश्च प्रमोदकः एकपादो द्विपादश्च शूरो वीरश्च षण्मुखः वरदो वरद नामदेव्र तोंडोद्विद्तक सेनानीमत् मतमूषक जडी मुंडी तथा खड्गी वरेण्यो वृषकेतन भंग्य प्रिय गणेश मेघनादो गणेश एते गणेशावर्णानामेकपञ्चाशतक्रमाद श्रीश्च ह्रीश्चैव पुष्टिश्च शान्तिस्तुष्टिस्सरस्वती रतिर्मेधा तथा कान्धिकामिनी मोहिनी तथा तीव्रा चज्वलिनी नन्दा सुयशाकामरूपिणी उग्रां तेजगदी सत्या विघ्नेशानी स्वू कदिवाच विकड़ा कूर्नीता नूदेर्भूमिर्द्विम्या चाप मकरजा विकर्ण भ्रृकुीलज्ज्जा दीर्घकोणा धनुर्धरी तथैव यामिनी शशिप्रभा लोलाक्षी चपला ऋज्वी दुर्भगा सुभगा शिवा दुर्गा गुहप्रियाकाली कालजिह्वा च शक्रयः ग्रहन्यासं तदकुर्या ध्यानपूर्वं समाहितः वरदाभयहस्ताढ्याञ्चक्त्यालिङ्गितविग्रहान् कुङ्कुमक्षीररुधिरकुन्दकाञ्चनकम्बुभिः अम्भोदधूमतिमिहैत्सूर्यादीन् सदृशान् स्मरेद हृदयाधोर्यविम्न्यस्य शीर्ष्णि सोमं दृशोकुजम् हृद शुक्रम चृन्मध्ये बुधम कंडे बृहस्पति ना भौशन वक् रेतु पद्द्व कालानल प्रख्या वरदाभय पड़य ताराण्य से तद्याय सर्वाभरणूषिता काले नयनयोः कर्णद्वये नासापुडद्वये कण्ठे स्कन्धद्वये पश्चात् कूर्पयोर्मणिबन्धयोः स्तनयोर्नापि कट्युरुजानुजङ्खापदद्वये योगिनीन्या समादध्याद्विशुद्धो हृदये तथा भ स्वाधिष्टि मूलेभ्रू मध्ये मूर्धनक्रदकर्णिकाध्ये वर्णशक्रीर्देश दलाग्रेशु दुप्द मूर्धन सर्वास्ेद अमृता नन्द्राणी ईशा चातुमा तथा ऊर्धक केशी रुद्विषी का तथा चेक का तदोंपिकाधो रक्षात्मिके रक्षात्मक दिशोशक्त कालिका केजरी गायत्री खण्डाद्धारिणी तथा नादात्मिका च चामुण्डाच्छत्त्रिका च जया तथा शङ्कारिणी च संज्ञा च डङ्गहस्तात्ततः परम् डङ्कारिणी च विज्ञेया शक्तयो द्वादशक्रमाद् डङ्गारी टङ्कारिणी च नामिनीतामसी तथा धङ्कारिणी दयाधात्री नादिनी पार्वती तथा फट्कारिणी च विज्ञेया शक्तयोद्वयपन्नगाः वर्धिनी च तथा भद्रा मज्जा चैव यशस्विनी रमा च लामिनी चेदि षडेदा शक्तयक्रमाद नारदाश्रीस्तथा षण्ठा शश्वत्यपि च शक्तयः चतस्रोऽपि तथैव द्वेहागिनी चक्षमा तथा ततः पादे जलिङ्गे जक्षौ हृद्दो शिरस्मु च दक्षादिवामपादान्तं राशिन्मेषादिकान्यसेद ततः पीठानि पञ्चाशदेकं चक्रं मनोन्यसेद वाराणसी कामरूपं नेपालं पौण्ड्रवर्धनं परस्थिरं कन्याकुब्जं पूर्णशैलं तथार्बुदम् आम्रादकेश्वरैकाम्रं त्रिस्रोधकामकोष्टकं कैलासं भृगुनगरं केदारं चन्द्रपुष्करं श्रीपीठं चैकवीरां च जालन्ध्रं मालवं तथा कुलान्नं देवि कोटं च गोकर्णं मारुदेश्वरम् अट्टहासं च विरजं राजवेश्ममहापथं कोलापुरकैलापुरकालेश्वरजयन्धिका उज्जिन्यपि चित्रा चक्षिरकं हस्तिनापुरम् उडीरां च प्रयागं च षष्टिमायापुरं तथा गौरीशं सलयं चैव श्रीशैलं मरुमेव च पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिं स्याद्भिरण्यपुरं पश्चान् तथा पुरोद्यानं तथाच्छायाक्षेत्रमाहुर्मनीषिणः लिपिक्रमसमायुक्ताल्लिपिस्थानेषु विन्यसेत् अन्यान्यधीक्तस्थानेषु संयुक्ताल्लिपिसङ्गमाद षोडान्यासोमयाख्यादः साक्षादीश्वरभाषिदः एवं विन्यस्तदेहस्तु देवताविग्रहो भवेद् ततः सोठा पुरकृत्वा श्रीचक्रन्यासमाचरेत् अंशाद्यानन्द्यमूर्त्यन्तं मन्त्रैस्तु व्यापकं चरेद् चक्रेश्वरीं चक्रसमर्पणमन्त्रान् हृदिन्यसेत् अन्यान्यथोक्तस्थानेषु गणपत्यादिकान्यसेद दक्षिणोरुसमं वामं सर्वांश्चक्रमशोऽन्यसेद गणेशं क्षेत्रपालं च योगिनीं वटुकं तथा आदाविन्द्रादयोऽन्याः सा जानु पार्श्वं समूर्धास्य पार्श्वजानुषु मूर्धनि मूलाद्धारेणीमादीनां सिद्धीनां दशकं ततः न्यस्तव्यमं स दोः पृष्टवक्षः सुप्रपदोऽस्विजि दोर्देश पृष्टयोर्मूर्ध पादद्विदययो क्रमाद अणिमा चैव लखिमा तृतीया महिमा तथा ईशित्वं च वसित्वं च प्राकाम्यं प्राप्तिरेव च इच्छासिद्धि रससिद्धिर्मोक्षसिद्धिरिति स्मृताः तदो विप्रण्यस्येद्धीमान्मातॄणामष्टकं क्रमाद गुष्टयुगे दक्ष पार्श्वे मूर्धनि वामदः वाम जनौ दक्ष जानौ दक्ष वामांसयोस्तथा प्रमी माहेश्वरी चैव कौमारी वैष्णवी तथा वाराही च तथेन्द्राणी चामुण्डा चैव सप्तमी महालक्ष्मीश्च विज्ञेया मातरो वै क्रमाद्बुधैः मुद्रा देवीर्ण्यसे दष्टावेष्वे वेश्वेवद्वेच ते पुनः मोग्धान्त्योरपि मुद्रास्तु सर्व संक्षोभिणि तथा सर्वविद्रविणी पश्चात्सर्वार्थाकर्षणी तथा सर्वाद्या वशकरिणि सर्वाद्या प्रियकारिणी महाङ्कुशी च सर्वाद्या सर्वाद्या खेचरी तथा त्रिखण्डा सर्वबीजा च मुद्रा सर्वप्रपीरिका योनिमुद्रेदि विज्ञेयास्तत्र चक्रेश्वरीं न्यषेद त्रैलोक्यमोहनं चक्रं समर्प्य व्याप्य वर्ष्मणि ततः कलानां नित्यानां क्रमात् षोडशकं न्यषेद कामाकर्षणरूपा च शब्दाकर्षणरूपिणी अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणि स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी रसाकर्षणरूपा च गन्धाकर्षणरूपिणी चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी हृदाकर्षणरूपिणी श्रद्धार्षण च्याणी अमृता कर्षि प्रोक्ता शरीर कर्षणी तथा स्थानी दक्षिण श्रोत्र पृष्ठ मंसूर्पर दक्षतल सैध पृष्ठ तत्क् तज्जङ्का प्रपदे वामप्रपदादिविलोमतः चक्रेशीं न्यस्य चक्रं च समर्थ्यव्याप्य वर्ष्मणि न्यसेदनङ्गकुसुमद्देव्यादीनामथाष्टकं शङ्खजत्रूरुजङ्कासु वामे तु प्रतिलोमतः अनङ्गकुसुमा पश्चाद्वितीयानङ्गमेखला अनङ्गमदना पश्चादनङ्गमदनातुरा अनङ्गरेखा तत्पश्चाद्वेगाख्यानङ्गपूर्विका ततोनङ्गाङ्गुशा पश्चादनङ्गाद्धारमालिनी चक्रेश्यस्य चक्रं च समर् च्यव्याप्यवर्ष्मणि शक्तिदेवीर्न्यस्येत् सर्वसङ्क्षोभिण्यादिका अथ ललाडगन्धयो रंसे पादमूले च जानुनि उपर्यधश्च जङ्कायां तथा वामे विलोमतः सर्वसङ्क्षोभिणि शक्तिस्सर्व विद्राविणी तथा सर्वाद्या कर्षणि शक्तिसर्वप्रहलादिनि तथा सर्वसम्मोहिनी शक्तिस्सर्वाद्या स्तम्भिनि तथा सर्वाद्या जृम्भिणी शक्तिस्सर्वाद्या वशकारिणी सर्वाद्या रञ्जिनीशक्तिस्सर्वाद्योन्मादिनी तथा सर्वार्थसाधिनीशक्तिस्सर्वासा पूरिणी तथा सर्वमन्द्रमयी शक्तिस्सर्वद्वन्द्वक्षयंकरा चक्रेशिम्न्यस्य चक्रं च समर्प्यव्याप्यवर्ष्मणि सर्वसिद्धिप्रदादीनां दशकं चाद विन्यसेद दक्षनासा पुडे दन्दमूले दक्षस्तने तथा कूर्परे मणिबन्धे चन्यस्ये द्वामे विलोमतः सर्वसिद्धिप्रदानित्यं सर्वसंपत्प्रदा तथा सर्वप्रियङ्करादेवी सर्वमङ्गलकारिणी सर्वाखमोचिनी शक्रिसर्वदुःखविमोचिनी सर्वमृत्युप्रशमिनी सर्वविघ्नविनाशिनी सर्वाङ्गसुन्दरी सर्वा सर्वा सर्वा चैव सर्वसौभाग्यदायिनी चक्रेशीम्न्यस्य चक्रं समर्प्य व्याप्यवर्ष्मणि सर्वज्ञाद्यान्यस्येद्वक्षस्यभिदन्तस्थलेष्वथ सर्वज्ञा सर्वशक्तिश्च सर्वज्ञानप्रदा तथा सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी सर्वाद्धारस्वरूपा च सर्वपापहरा तथा सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी विज्ञेयादशमी चैव सर्वेप्सितफलप्रदा चक्रे शी न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि पक्षिण्याद्यादु दक्षे दुचिबुके कंठे स्थने नौ चो वा वामा विनोदिनी विद्या वशिता कामीकी मता कामेशरी पराज्ञेया मोहिनी विमला तथा अरुणा जयिनी सर्वेश्वरी पश्चातरी मौली सूक्ता सूरीभ्रेशी समार्प्य व्याप्य संभाव्य दिक्षु संभा्य दीक्षुपागा्रद तद्बहिर्विन्यसेमानायुधानां चतुष्टयं न्यसेदग्न्यादिकोणेषु मध्ये पीठचतुष्टयं मध्यवृत्तं न्यसित्वा च नित्या षोडशकं न्यसेद कामेश्वरी तथा नित्या नित्या च ढगालिनी क्न्ना तथा निंडिनी मदा वी वासी का महावज्रेश्वरी महव्रेशरी तथा निूदी निरी दादु तर कुंदरि का निकुल्या ततपरम नित्या नीलपताकाच च विजयापरा ततस्तु मंगलाचैव नित्यपूर्वा प्रचक्ष्यते प्रभामालिनिका नित्या चित्रा नित्या तथैव च एता स्त्रिकोणान्तरेण पादतो हृदि विन्यसेद् नित्या नित्याप्रमोदिनी चैव नित्या त्रिपुरसुन्दरी तन्मध्ये विन्यसेदेवी मखण्डजगदात्मिकां चक्रेश्वरीं हृदिन्यस्य कृत्वा चक्रं समुद्धृतं प्रदर्श्य मुद्रां योऽन्याख्यां सर्वानन्दमनुं जपेद। इत्यात्मनस्तु त्मनस्तु चक्र चक्रदवी भविष्य यी ब्र्मापुराणे उत्तरभागे हयग्रीवागस्त्य संवाद ललिप्या चुश्च्वांशोध्याय समलिप्यानम श्रीमत्प्रतापगढपत्तनमध्यवर्ति श्रीरामपूर्वकगढाभिधवासिनेदं संशोधितं निखिलमान्यपुराणकं यद्ब्रह्माण्ड संज्ञमिह यत् क्वचिदस्ति हाप्यसंशुद्धं संशोधितमपि दयया तत्क्षन्तव्यं ह्यशेषेण ॐ नमो भगवते वासुदेवाय रामाय नमः समाप्तमिदं ब्रह्माण्डमहापुराणम् Om